नृशं संकर्मसु सर्वलोकविगर्हितं सर्वलोकविगर्हितम् अस्वर्ग्यमयशस्यं चाप्यधर्मिष्ठं च चा भारत स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशं त्वया नृशं सकर्तारः पापाचाराश्च मानवाः निग्राह्याः पार्थिव श्रेष्ठ ते नरश्रेष्ठ मामिहानागसंघ्नता मुनिं मूलफलाहारं मृगवेषधरं नृप वसमानमरण्येषो नित्यं शमपरायणं त्वयाहं हिंसितो यस्मात् तस्मात् शपे द्वयोर्नृशं सकर्तारं अवशं काममोहितं जीवितांतकरो भावा एवमेवागमिष्यति अहं हि किन्दमो नाम तपसा भावितो मुनिः व्यपत्रपन्मनुष्याणाम् मृग्यां मैथुनमाचरं मृगो भूत्वा मृगैः सार्धं चरामि वने न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः मृगरूपधरं हत्वा मामेवं काममोहितं अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि सहसंवासं प्राप्य कामविमोहितः त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि अन्तकाले हि संवासं यया गन्तासि प्रेतराजपुरं प्राप्तं सर्वभूतदुरत्ययं भक्त्यामतिमतां मतिमतां श्रेष्ठ वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया तथा त्वां च सुखं प्राप्तं दुःखमभ्यागमिष्यति वैशंपायन उवाच मुक्ता सु दुखा जीवितता स्यच्यता मृग पाण्डु दुखा क्षण नमपद्यतः महाभारते आदिपर्णि संभवपर्व पाण्डुमृगशापे